नारदपुराणं पूर्वार्थम् अध्यायं सेवेण्टिफैव् सनत्कुमार उवाच अथ दीपविधिं वक्ष्ये सरहस्यं हनूमदः यस्य विज्ञानमात्रेण सिद्धो भवति साधकः दीपमात्रप्रमाणं च तैलमानं क्रमेण द्रव्यस्य च प्रमाणं वैतत्तुमानमनुक्रमाद स्थानभेदं च मन्त्रं च दीपदानमनुं पृथक् पुष्पवासिदतैलेन सर्वकामप्रदं मदम् तिलतैलं श्रियप्राप्त्यै पथिकागमनं प्रदि अदशीतैलमुद्दिष्टं वश्यकर्मणि निश्चितम् सा शापं रोगनाशाय कथितं कर्मकोविदैः मारणे राजिकोद्धं वा विभीतकः समुद्भवम् उच्चाडने करजोद्धं विद्वेष्ये मधुवृक्षजम् अलाभे सर्वतैलानां तिलजं तैलमुत्तमम् गोधूमाश्च तिलमाशामुद्गा वै प्रमाद पञ्च धान्यमिदं प्रोक्तं नित्यदीपं तु मारुतेः पञ्च धान्यसमुद्भूतं पिष्टमात्रं सुशोभनं सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके वश्ये तण्डुलपिष्ठोद्धम् मारणे माषपिष्ठजम् उञ्चाडने कृष्णतिलपिष्ठजम् च प्रकीर्तितम् पथिकागमने प्रोक्तम् गोधूमोद्धम् स तण्डुलम् मोहने त्वाठ कीजाद विद्वेषे च कुलधजम् संग्रामे केवलमाशा प्रोक्ता दीपस्य पात्रके सम्धौ त्रिपिष्ठजं लक्ष्मी हेधोकस्तूरिका भवम् येलालवङ्कर्पूरमृगनाभिसमुद्भवम् कन्याप्राप्त्यै तथा राजवंश्ये सक्ये तथैव च अलाभेत् सर्ववस्तूनां पञ्चधान्यं वरं स्मृतम् अष्टमुष्टिर्भवेत् किञ्चित् किञ्चिदष्टौ च पुष्कलम् पुष्कलानां चतुर्णां च ह्याटकः परिकीर्तितः चतुराटको भवेद् द्रोण कारी द्रोणचतुष्टयं कारी प्रस्तसंज्ञा च परिकीर्तिता अथ वान्यप्रकारेण मानमत्र निगद्यते फलद्वयं तु प्रसृतं द्विगुणं कुडवं मदं चतुर्भिक् कुडवैः प्रस्तस्तैश्चतुर्भिस्तथाठकः चतुराठको भवेद् द्रोणः ऋकारी द्रोणचतुष्टयं क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्म सम्भवे पञ्चसप्तनवतथा प्रमाणास्ते यदा क्रमं सौ गन्धे नैव मानं स्यात्तद्यथा रुचिसम्मतं नित्यपात्रे दु तैलानां नियमो वार्तिकोद्भवः सोमवारे गृहीत्वा तद्ध्वान्यं तोयप्लुतं धरेद् पश्चात्प्रमाणदो कुमारी हस्तपेशणं तत्पिष्ठं शुद्धपात्रेऽदु नदीतोयेन पिण्डितम् दीपपात्रं तदकुर्या शुद्धप्रयतमानसः दीपपात्रे ज्वाल्यमाने मारुगे कवचं पठेत् शुद्धभूमौ समस्थाप्य भौ मे दीपं प्रदापयेद् मालामनूनां ये वर्णाः स ध्यनामसमन्विताः वर्तिकायां प्रकर्तव्यास्तं तवस्तत्प्रमाणकाः तत् त्रिंशांश्येन वाग्राह्य गुरुपार्येखिलाढ्यत कूडतुल्या स्मृदा नित्ये सामान्येधविशेषके रुद्रा कूडगणः प्रोक्ता न पात्रे नियमो मदः एकविंशतिसङ्ख्याकास्तवोद्धाध्वनि स्मृताः रक्तसूत्रं हनुमदो दीपदाने प्रकीर्तितं कृष्णमुञ्जाडने द्वेषेरुणं मारणकर्मणि कूडतुल्यफलं तैलं गुरुकार्ये शिवैर्गुणं नित्ये पञ्चफलं प्रोक्तमथवा मनसी रुचिः हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम् शिवाल धवा शिवालयेथवा कुर्यान्नित्यनैमित्तिके स्थले विशेषोऽस्त्यत्र ह्यः कश्चिन्मारुदेरुच्यते मया प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च चतुष्पधे तथा प्रोक्तं षट्सु दीपप्रदापनम् सन्निधौ स्पाडिके लिङ्गेशालग्रामस्य सन्निधौ नानाभोगश्रियै प्रोक्तं दीपदानं हनुमदः गणेशसन्निधौ विघ्नमहा सङ्कटनाशने विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम् दुर्गाया सन्निधौ प्रोक्तं सङ्ग्रामे दीपदापनं चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च राजद्वारे बन्धमुक्तौ कारागारे धवामदम् अश्वत्थवडमो धेतु सर्वकार्यप्रसिद्धये वश्ये भये विवादे च व्यैष्मसङ्ग्रामसङ्कटे द्यूदे दृष्टिस्तम्भने च विद्वेषे मारणे तथा मृतकोत्थापने चैव प्रतिमाचालने तथा विषे व्याधौ ज्वरे भूदग्रहे कृत्या विमोचने क्षदग्रन्थौ महारण्ये दुर्गे व्या क्रूरसत्शंध्व विमोक्षणे चैव दुस्थ राजमोहने, आगमे नर्गमे चैव राजद्वारे राजकर्ति दीपदानं हनुमदो नात्रकार्या विचारणा रुद्रैकविंशपिण्डांश्चत्रुथा मण्डलमानकं लघुमानं स्मृतं पञ्चसप्त वा नव वा तथा क्षीरेण नवनूदेन दध्न वा गोमयेन च प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने दक्षिणाभिमुखं वीरं कृत्वा केसरि विक्रमं वृक्षविन्यस्तपादं च किरीटेन विराजितं लिखेद्भित्तौ पडे वापि मारुते शुभे मालामन्त्रेण दादव्यं दीपदानं हनूमदः नित्यदीपः प्रकर्तव्यो द्वादशाक्षरविद्यया विशेषस्तत्रयस्थं वैदीपदानेऽवधारय षष्ट्यादौ जद्विदीयादाविमं दीपमिदीरयेत् गृहाणेऽधिपदं पश्चाच्छेशं पूर्ववदुच्चरेद कूडादौ नित्यदीपे जमन्त्रं सूर्याक्षरं वदेद, तत्र मालाघ्यमनुना तत्तत्कार्येषु कारयेद् गोमयेन्नोपलिप्तायां भूमौ तद्गतमानसः षट्कोणं वसुपत्रं च भूमौ रेखासमन्वितं कमलं चलिकेद्भद्रं तत्र दीपं निधापयेत् शैव वा वैष्णवे पीठे पूजयेद्गञ्जनासुदं च षट्कोणे अन्तराले परलिखेध्कोणेषु षडङ्गानि बीजयुक्तानि संलिखेत सौम्यम् मध्यगतम् लिघ्यम् तत्र सम्पूज्य मारुतिम् षट्कोणेषु षडङ्गानि नामानि च वसुपत्रे क्रमात् पूज्या अष्टावेदे च वानराः सुग्रीवायाङ्गदायाध सुषेणाय नलाय च नीलायादो जाम्पवदे प्रहस्ताय तथैव सुवेशाय तदपश्चाद्यजेत् षटङ्कदेवताः आधावं जनापुत्राय ततश्च रुद्रमोक्तये तदो वायुसुदायाध जानकी च रामदूताय ब्रह्मास्त्रनिवारणाय तत्परं पञ्चोपचारै सम्पूज्य देशकालौ च कीर्त्ये समादाय दीपमन्त्रं समुञ्चरेत् तदभिमुखो जप्त्वा साधये साधकोत्तमः तं मन्त्रं कूटधा जप्त्वा जलं भूमौ विनिक्षिपेद् तथा करपुडं कृत्वा यथा शक्तिजपेन्मनुम् अनेन दीपवर्येण उदङ्मुखगतेन तधा तथा विधेहि हनुमन्यथा स्युर्मे मनोरथाः योदशैवम् द्रव्याणि गोमयम् मृत्तिकामसि अलक्तम् दरदम् रक्तचन्दनम् चन्दनं मधु कस्तूधिका दधिक्षीजं नवनीतम् धृतम् तथा गोमयम् द्विविधम् तत्र प्रोक्तम् गोमखिषीभवम् पश्चाद्विनष्टद्रव्यात्तौ माखिषम् गोमयम् स्मृतम् पथिकागमने दूरान्महादुर्गस्य रक्षणे बालादिरक्षणे चैव चौरादिभयनाशने स्त्रीवश्यादिषु कार्येषु शस्त्रम् गो गोमयं मने भूमिस्पृष्टं न तद् ग्राह्यमन्तरिक्षाञ्च भाजने चतुर्विधा मृत्तिका दुःस्वेदा तत्र गोपीचन्दनं तु हरितालं च गौरिकं मशीलाक्षारसोद्भूता सर्वं वान्यस्फुटं मदं कृत्वा गोपी च दन्नेन कृत्वा गोपीचन्दनेन चतुरस्रं गृहं सुधीः तन्मध्ये माहिष्येणाध कुर्यान्मूर्तिं हनूमदः बीजं क्रोधाञ्च तत्पुच्छं लिखेन्मं त्रीसमाहिदः तैलेन स्नापयेन्मूर्तिं गुडेन तिलकं चरेद शतपत्रसमो धूपशालनिर्यास्यसम्भवः कुर्याञ्च तैलदीपं तु वर्तिपञ्चकसंयुधं दध्यो धनेन नैवेद्यं दध्यात् साधक सप्तमः वारत्रयं कण्ठदेशे सशेषविषमुञ्चरन् एवं कृते दुनष्टानां महिषीणां गवामपि दासी दासाधिकानां च नष्टानां प्राप्तिरीरिता चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः तालेन च च दुर्द्वारं गृहं कृत्वा सुशोभनम् पूर्वद्वारे गजस्ताभ्यो दक्षिणे महिषस्तथा सर्पस्तु पश्चिमे द्वारे व्याघ्रश्चैवोत्तरे तथा एवं क्रमेण खड्गं च क्षुधिका दण्डमुद्गरान् विलिख्य मध्ये मूर्तिं च महिषी गोमयेन वै कृत्वा डमरुहस्तान् चकिताक्षीप्रयत्नदः पयः सा स्नापनम् रक्त चन्दनेनानुलेपनम् जातीपुष्पैस्तु सम्पूज्य शुद्धधूपप्रकल्पयेत् हृदेन दीपम् दत्त्वाध पायसान्नम् निवेदयेद् गगनम् दीपिकेम् द्वाढ्याम् शास्त्रम् च पुरदो एवं सप्तदिनं कृत्वा मुच्यदे महदो भयाद अनयोर्भौमवारेदु कुर्यादारम्भमादराद शत्रुसेनाभये प्राप्ते गैरिकेणदुमण्डलं कृत्वा तदन्तरे तालमीष्टन्नम्रं समालिखेत् तत्रावलम्बमानां च प्रतिमाम् गोमयेन तु वामहस्तेन तालाग्रम् दक्षिणे ज्ञानमुद्रिका तालमूलास्वकाष्ठायाम् मार्गे हस्तमिदे गृहम् चतुरस्रविधायाध तन्मध्ये मूर्तिमालिकेद। दक्षिणाभिमुखीं रम्यां हृदये विहिताञ्जलीं तोयेन यथा संभवमर्पयेत कृशारान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत निवेदयेत् किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने एवं कृते भवेच्छीघ्रम् पथिकानां समागमः श्यामपाषाणखण्डेन लिखत्वा भूपतेर्गृहम् प्राकारं तु दु चतुर्द्वारयुक्तं द्वारेषु तत्र वै अन्योन्यपुच्छत्र ययुक्तां हनूमदः कुर्यान्मूर्तिं गोमयेन दत्तूरकुसुमय्यजेद् जडा मांसि भवं धूपं तैलाक्तकृतदीपकम् नैवेद्यं चलतैलाक्तसक्षारा माशरोटिकां ज्येयो दक्षिणहस्तेन रोटिकां भक्षयन् हरिः वामहस्तेन पाषाणास्त्रासयन् परसैनिकान् नारयन् भृकुडीम् बद्ध्वा भीष यन्मधयन् स्थितः जपेन् च भु भुगिधि वैसहस्रं ध्यानतत्परः एवं कृतविधानेन परसैन्यं विनाशयेद रक्षा भवति दुर्गाणां सत्यं सत्यन संशयः प्रायोगा गा बहवस्तत्र सङ्क्षेपाद्गदिदा मया प्रत्यहं यो विधानेन दीपदानं भनूमदः तस्यासाध्यं न वै विद्यते भुवनत्रये नदेयं देयं दुष्टहृदये दुष्टचिन्तनबुद्धये अविनीताय शिष्याय पिशुनाय कदाचन कृदघ्नायन दाधव्यं दाधव्यं च परीक्षिते बहुना किमिहोक्तेन सर्वं दद्यात्पीश्वरः अथ मन्त्रान्तरं वक्ष्ये तत्त्वज्ञानप्रदायकं तारो नमो हनुमते जाढरत्रयमीरयेत् दनक्षोपम् समाभाष्य संहरद्वयमीरयेद् आत्मतत्त्वं तदपश्चात्प्रकाशययुगं तदः ब्रह्मास्त्रवस्निजायान्तः सार्धषड्विंश धर्नवान् वसिष्ठोऽस्य मुनिश्चन्दो नुष्टुप् च देवदाः पुनः हनुमान्मुनि सप्तर्तु वेदाष्टनिगमैक्रमाद मन्त्रार्णैश्च षडङ्गानि कृत्वा ध्यायेत्कवीश्वरं जानुस्तावाम बाहुं च ज्ञानमुद्रापरं हृदि अध्यात्मचित्तमासीनं कदली वनमध्यगं बालार्थकोडिप्रतिमं ध्याये ज्ञानप्रदं हरिं ध्यात्वैवं प्रजापेर्लक्षम् दशांशम् ज्युहुयाक्तिलैः साज्यै सम्पूजयेत् पीठे पूर्वोक्ते पूर्ववत्प्रभुम् जप्तोऽह्यम् मदनक्षोभम् नाशयत्येव निश्चितम् तत्त्वज्ञानमवाप्नोति कपीन्द्रस्य प्रसाददः अथ मन्त्राद अधमन्त्रान्तरं वाक्ष्ये भूतविद्रावणं परं तारकाशीं कुक्षि परवराहश्चां जनापदं पवनो वनपुत्रां ते आवेशिद्वयमीरयेद तारश्रीहनुमध्यश्चादस्त्रर च भुव्याक्षरः ब्रह्मा गायत्री छन्दोत्र देवता पुनः हनुमान् कमलाबीजं बीजं फट्शक्तिपरिकीर्तितः षड् दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत् आञ्जनेय पाडलास्यं स्वर्णाद्रिसमविग्रहं पारिजाद्रुमूलस्थं चिन्तयेत् साधकोत्तमः एवं ध्यात्वा जपेर्लक्षं दशांशं जिहुयात् स्त्रीमध्वाक्ताय यजत्पीठे पूर्वोक्ते पूर्ववत्सुधीः अनेन मनुनां मं ग्रहग्रस्तं प्रमार्जयेद आक्रन्दंस्थं विमुच्याध ग्रहशीघ्रं पदाय मनवोमी सदा गोप्या नः प्राकाश्यायतस्तदः परीक्षिताय शिष्याय देयावा दया वा निजसूनवे हनुमद्भजनसक्तकार्तवीज्यार्जुनं सुधीः विशेषदसमाराध्य यथोक्तं फलमप्नुयात् यदि श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दीपविधिनिरूपणं नाम पञ्चसप्ततितमोऽध्यायः ओम्